मार्कण्डेयपुराणम् अध्यायं 63 त्रि उवाच ततः सह तथा सोधररामगिरिसानिषु फुल्लकाननहृद्येषु मनोज्ञेषु सरसुच च कन्धरेषु चरम्येषु निम्नगापुलिनेषु च मनोज्ञेषु तथान्येषु देशेषु मुदिदो द्विज वह्निनाधिष्ठितस्यासीद्यद्रूपं तस्य तेजसा अचिन्तयद्भोगकाले निमीलितविलोचना तथकालेन सा गर्भमवापमुनिषत्तम गन्धर्वविर्यदोरूप चिन्तनाच्च द्विजन्मनः तां गर्भधारिणीं सोध सान्त्वयित्वा वरूधिनीं विप्ररूपधरो यादस्तया प्रीत्या विसर्जितः ज्ञे स बालोऽद्युदिमाञ्ज्वलन्निव विभावसुः स्वरोचि स्वरोचिभर्यथ सूर्यो भाषय सकला दिश स्वरोजिभदिभास्वा निवसबालाक ततस्वरोचिरीं नाख्यादूतस वृधेज महाभागो वयसाधि तथा गुणौखैश्च यथा बालकलाभिःशलाञ्छनः स जग्राहधनुर्वेदं वेदांश्चैव यथा विद्याश्चैव महाभागस्तदा यौवनगोचरः मन्दराद्रौ कदाचित्सविचरं चारुचेष्टितः ददर्शयिकाम् तदा कन्यां गिरिप्रस्थे भयादुराम् त्रायस्वेदि निरीक्ष्यैनं सा तदा वाक्यमब्रवीत् मा भैषीरिति सप्राह भयविप्लुतलोचनां किमेतदिति तेनोक्ते वीरवाक्ये महात्मना तदसा सा कथयामास श्वा क्षेद कवाच अहमदी वराख्यस्य सुदा वै। नाम नाम विद्याधर वै ना मनोरमाजादा सु मधं मंदार विद्याधरजा सखी मम विभारी कलव चाप्यपरा सुधापारस्य वै मुनेः ताभ्यां सह मया यादं मुत्तमं तत्र दृष्टो मुनिः कश्चित्तपसादिकृशाकृतिः क्षुक्षामकण्ठो निस्तेजा दूरपादाक्षितारकः मया वहसिधक्रुद्ध स ददा माम् शापः क्षामक्षामस्वरः किञ्चित् कल्पिताधरपल्लवः त्वयावहसिदो यस्मादनार्ये दुष्टतापसि तस्मात्त्वामचिरेणैव राक्षसोऽभिभविष्यसि दत्ते चापे मत्सखीभ्यां निर्भत्सिदो मुनिः धिक्ते ब्राह्मण्यमक्षान्द्या कृदन्दे निखिलन्तपः अमर्षणैर्धर्षितोऽसि तपसा नाधिकर्षितः क्षान्द्यास्पदं वै ब्राह्मण्यं क्रोधसंयमनन्तपः ये दच्छ्रुत्वा ददौशापं ये कस्या कुष्ठमङ्गेषु भाव्यन्यस्यास्तथाक्षयः तयोस्तथैव तज्जातं यथोक्तं तेन तत्क्षणाद् ममाप्येवं महद्रक्षः समुपैधिपदानुगं महानादं तस्या दुरेऽपि गर्जतः तृतीयमद्यदिवसं यन्मे पृष्टन्नमुञ्जति अस्त्रग्रामस्य सर्वस्य हृतज्ञाहमद्यते ते प्रयच्छामि मां रक्ष रक्षसोऽस्मान्महामदे प्रादात्स्वायम्भुवः स्यादौ स्वयं रुद्रः पिनाकधृक स्वायं भुवोऽवशिष्टाय सिद्धवर्याय दत्तवान् तेनापि दत्तं मन्माधुः पित्रे चित्रायुधाय वै प्रादाद्वौ द्वाहिकंसोऽपि मत्पित्रे श्वशुरस्वयं मयापि शिक्षिदं वीर सकाशात् हृदयं सकलास्त्राणामशेषरिपुनाशनं तदिदं गृह्यतां शीघ्रमशेषास्त्रपरायणं तदो जहिदुरात्मानमेनं राक्षसमागतं मार्कण्डेय उवाच तथ तदस्तेन वायुपस्पृश्य तस्य अस्त्राणां हृदयं प्रादात् सरहस्य निवर्तनं यदस्मिन्नन्तरे रक्षस्तदा भीषणाकृति नर्दमानं महानादमाजगामत्त्वरान्वितम् मयाभिभूता किं त्राणमुपैषिद्धृतमे हि मे भक्ष्यामि किञ्जिरेणेदि ब्रुवाणं तं ददर्शसः स्वरोचिश्चिन्तयामास दृष्ट्वा तं समुपागदं गृह्णात्त्वेष वचः सत्यं तस्यास्त्विधि महामुनेः जग्राह समुपेत्यैनां त्वरया सोऽपि राक्षसः त्राहित्राहीति विलपन्तीं सुमध्यमाम् माम् तदस्वरोचिः संक्रुद्धश्चण्टास्त्रमधिभैरवं दृष्ट्यां निवेश्य तद्रक्षो ददर्शानिमिषे क्षणः तदाभिभूतः सददा तामुत्सृज्य श्रूयताञ्चेत्यभाषत मोक्षितोषन्त्वया शापा दधिघोरान्महाद्युदे प्रदत्ता ददितीव्रेण ब्रह्ममित्रेण धीमदा उपकारीनमेत्वत्तो महाभागाधिकोपरह महाभागाधिकोपरः येनाहम् ष्टान्महा शापाद्विमोक्षितः स्वरोचिरुवाच ब्रह्ममित्रेण मुनिना किन्निमित्तं महात्मना शब्दस्त्वं कीदृशश्चैव शापो दत्तो भवत्पुरा राक्षसा उवाच ब्रह्ममित्रोष्टथा भिन्नमायुर्वेदमधीतवान् त्रयो दशाधिकारञ्च प्रगृह्याधर्वणो द्विजः अहञ्चेन्दी वराख्ये स्या जनको भवं विद्याधरपदेः पुत्रो नलनाभस्य खङ्गिनः मयाच च ब्रह्ममित्रो भवन्मुनिः आयुर्वेदमशेषं मे भगवन् दातुमर्हसि यदा तु बहुशो वीरप्रश्रया वनतस्य मे न प्रादाद्याचिदो मम शिष्येभ्यो दततस्तस्य मयान्तर्धा नहि आयुर्वेदात्मिका विद्या गृहीदाभूस्तदानख गृहीदायान्तु विद्यायां मा सैरष्टाभिरन्तराद् ममादि हर्षादभवद्दासोदीव पुनः पुनः प्रदिभिज्ञाय मुनिकोव हासान्मुनिकोपसमन्वितः विकम्बिकन्दरप्राह मामिदं पुरुषाक्षरं राक्षसेनैव यस्मान्मे त्वया दृश्येन दुर्मदे कृदा विद्या वहासश्च मामवज्ञाय वै कृतः तस्मात् त्वं राक्षसः पापमच्छापेन निराकृतः भविष्यसि न सन्देहः सप्तरात्रेण दारुणः इत्युक्ते प्रणिपादाद्यैरुपचारैः प्रसादितः स मामाह पुनर्विप्रस्तत्क्षणान्मृदुमानसः यन्मयोक्तमवश्यं दद्भावि गन्धर्वन्यथा किन्तु त्वं राक्षसो भूत्वा पुनः स्वं प्राप्स्यसे वुः नष्टस्मृतिर्यदा क्रुद्धस्वमपत्यञ्चिकादिषु निशाचरत्वं तदस्त्रानलतापितः पुनः संज्ञामवाप्य स्वामवाप्स्यसि निजं वपुः तथैव स्वमधिष्ठानं लोके गन्धर्वसंज्ञिते सोऽहं त्वया महाभागमोक्षिदोऽस्मान्महाभयाद निशाचरत्वाद्यद्वीर तेन मे प्रार्थनां कुरु इमां वेदनयां भार्यां प्रयच्छामि प्रदीक्षताम् आयुर्वेदश्च सकलस्त्वष्टाङ्गो यो मया ततः मुनेः सकाशात्सम्प्राप्तस्तं गृह्णीष्वमहामते मार्कण्डेय उवाच इत्युक्त्वा प्रददौ विद्याम् स च दिव्याम्बरोज्ज्वलः स्त्रभूषणधरो पुराणं वपुरास्थितः दत्त्वा विद्यां सदादुमुपचक्रमे तमाह सा जनितारं स्वरूपिणम् अनुरागो ममाप्यत्र दर्शनादेव सञ्जातो विशेषेणोपकारिणि किन्त्वेषा मे सखी साच च मत्कृते दुःखपीडिते अधो नाभिलषे भोगान् भोक्तु मेदेन वै समं पुरुषैरपिनो शक्या कर्तुमिद्धं नृशं सदा स्वरुचिमादृक योषितकष्य साधे दुखाते मकृदे कन्के पिता तथा स्थाया तत्दुखे तोकानलता स्वरोचिवाच आयुर्ेद प्रसाद ते गरिष्ये पुनर्नवे सख्यौ तव महाशोकं समुत्सृज सुमध्यमे मे उवाच ततः पित्रा स्वयं दत्तां तां कन्यां स विधानतः उभयेमे गिरौ तस्मिन् स्वारोचिश्चारुलोचनाम् दत्तान्दु तां तदा जगाम दिव्यया गत्या गन्धर्वस्वपुरन्ददः स सचापि सहितस्तन्व्या सदुद्यानन्ददाययौ कन्यकायुगलं यत्र तच्चापोद्धगदातुरम् तदस्तयोः सतत्वज्ञो रोग्नैरौषधैरसैः चकारनिरुजौ देहौ स्वरोचिरपराजितः ततोधिशोभने कन्ये विमुक्ते व्याधिदशुभे स्वकान्त्योद्योधिदिग्भागं चक्रादे तन्महीधरम् श्रीमार्कंडेयपुराणे स्वाचिषे मन्वरेमध्याय ओ